नारायणीयं दशकम् नैण्टि त्री मीटर् श्रद्धरा बन्धुस्नेहं विजह्यान्तवहि करुणया त्वय्युपावेशिदात्मा सर्वं त्यक्त्वा चरेयं सकलमपि जगद्वीक्ष्य माया विलासं नानात्वाद्भ्रान्तिजन्यात् सदि खलु गुणदोषाव बोधे विधिर्वा व्यासेधो वा कथन्तौ त्वयि निहितमदेर्वीदवैषम्यबुद्धेः क्षुतृष्णालोपमात्रे सददकृतधियो जन्तवः सन्ध्यनन्दास्तेभ्यो विज्ञानवत्त्वात्पुरुष इह वरस् तज्जन दुर्लभव तत्मा सै सुहृदी चरिपुस्वइन चेदास्तापोचिते बाह्यं स्मरदि स ही सुत्मरी तदन्युण्ये प्रवृत् कव नि गु लोकवृत्तेपि भूमन् सर्वाक्रान्तापि भूमिर्न हि चलति तदसत्क्षमाम् शिक्षयेयम् गृह्णीयामीश तद्विषयपरिचयेप्यप्रसक्तिं समीराद्व्याप्तत्वं चात्मनो मे गगनगुरुवशाद्भादु निर्लेपता च स्वच्छस्यां पावनोऽहं मधुर उदगवद्वह्निवन्मास्म गृह्णां सर्वान्नीनोऽपि दोषं तरुषुदमिव मां सर्वभूतेष्ववेयां पुष्टिर्नष्ठिकलानां शशिन इव तनोर्णात्मनोऽस्तिविद्यां तोया दिव्यस्तमार्ताण्ड वदपि च तनुष्वेकतान्द्वत्प्रसादाद स्नेहाव्याधातपुत्रप्रणयमृदकपो तायिदो मा स्म भुवम् प्राप्तम् प्राश्नन् सहेयक्षुधमपि शयुवत्सिन्धुवत्स्याम गाधः मा पप्तयोषिदादौ शिखिनिशलभवद्भृङ्गवत्सारभागी भूयासङ्गिन्दु तद्वद्धनचयनवश्यान्माहमीशप्रणेश्यम् मा, मा बध्या गज इव वशया नार्जयेयन् धनौखम् हर्तान्यस्तं हि इव मृगवन्मा मुहुङ्ग्राम्यगीतैः नात्या सज्जय भोज्ये चष इव बलिशे पिङ्गलावन्निराश्यः सुप्यां कुरर इव विभो सामिशोऽन्यैर्नहन्यै वर्ते यत्यक्रमानः सुखमदिशि सुवन्निः सहायश्चरेयं एकशेषो वलय इव विभो वर्जितान्योन्यघोषः त्वच्चित्तो गेहेष्वन्यप्रणीतेष्वहिरिव निवसान्युन्दिरो मन्दिरेषु त्वय्येव त्वत्कृदन्त्वम् क्षपयसि जगदित्युर्न नाभात्प्रदीयाम् त्वच्चिन्ता त्वत्स्वरूपम् कुरुद विभस्मात्मा च देहो भवति गुरुवरो यो विवेकं विरक्तिम् दत्ते सञ्चिन्त्यमानो मम दु बहुरुजा पीडितोऽयं विशेषात् हीही मे देहमोहन्त्यजभवनपुराधीश यत्प्रेमभेदो गेहे वित्ते कलत्रादिषु च विवशितास्त्वत्पदम् विस्मरन्ति सोऽयम् वह्नेः शुनो वा परमिह परदः साम्प्रतञ्चाक्षि कर्णत्वग्जिह्वाद्या विकर्षन्त्यवशमदयिधः कोऽपि न त्वत्पदाब्जे दुर्वारो देहमोहो यदि पुनरधुना तर्हि निःशेषरोगान् कृत्वा भक्तिम् द्रडिष्टाङ् कुरु तव पदपङ्गेरुहे पङ्गजाक्षूनन्नाभवान् ते समधिगतममुम् मुक्तिदम् विप्रदेहम् क्षुद्रेः मामाक्षिप मामाक्षिपविषयरस्ये पाहि मामारुदेश